मुद्गलपुराणं खण्डं तु एकदन्तचरितम् अध्यायं 28 ऐट् कश्यपसृष्टिवर्णनम् श्रीगणेशाय नमः मुद्गल उवाच दक्षप्राचेतसो राजा तताप तप उत्तमं सदवर्षैर्गणाध्यक्षप्रसन्नो वरदो भवत गणेश वरदानेन स सिद्धः ससृजे प्रजाः देवायक्षा मनुष्याश्च पिशाचाद्याः सहस्रशः नानाविधा प्रजा सृष्ट्वा वर्धन्त न यदा तदा धरण्यां मैधुनीं सृष्टिं ससृजे स दशा भवन्सहस्राणां पुत्रास्तस्मान् महौजसः तनुवाच स्वयं दक्षसृजध्वं तपसा युताः तदेदितं प्रणम्यादौ गतास्तपस आदराद तेषां मार्गे ब्रह्मपुत्रो नारदसहसा गतः उवाच विधिवत्तान् स योगमार्गं सनातनं तेन युक्ताश्च ते सर्वे न चकृसृष्टिमुत्तमां कर्ममार्गं परित्यज्य गाणपत्याश्च ते भवन् गदा स्वेच्छाचरा सर्वे भ्रमहीना जिदेन्द्रियाः ज्ञात्वा नष्टान् स्वपुत्रान् स आसिज्ञां चैव पुत्राणां सहस्रं तेजसायुधं स तानुवाचप्रीतात्मा तपसा सृष्टिमुत्तमां कुरुध्वं ते प्रणम्यादौ तं वनं पुनस्तान् नारदस्तद्वद्दौ ज्ञानं सुनिर्मलम् तेपि योगयुदा सर्वे युस्वेच्छाविहारिणः ज्ञात्वा वृत्तान्तमुग्रं वै दक्षक्रोधसमन्वितः शशापनारदम् ब्रह्मपुत्रं परमभाविकम् त्वया पुत्रा मदीयाश्च नाशिधाः कर्ममार्गदः वर्णाश्रमक्रमेणैव युक्ता भ्रष्टा कृता नारदत्वमदो दुष्टप्रजाहीनो भविष्यति द्विमुहूर्तात् परं कालं न त्वया यत्र कुत्र स्वर्गे पातालके पदे भ्रमिष्यसि महादुष्ट संशयः एवं दक्षो ययौ ब्रह्माणमादराद तं प्रणम्य जगन्नाथमुवाच विनयान्विदः सृष्टिं करोमि देवेश केन मार्गेण तद्वद नारदो दुष्टभावेन मोकां सृष्टिं समेकरोद तमुवाच तदो ब्रह्मा सृजकन्या सुलोचनाः तथेदि स ययौ स्थानं स्वकीयं स्रष्टुमारभद षष्टिं दक्षोसृजकन्या वीरिण्यां तेजसान्विदः चारुरूपा महाभागा माधरः सर्वदेहिनां ददौ दशधर्माय कश्यपाय त्रयोदश सप्तविंशतिमब्जाय चदस्रोरिष्टनेमये द्वे ददौ बहुपुत्राय द्वे, द्वे विस्तरम् मरुत्वदी वत्सुर्यामी लम्बाभानुररुन्धदी सङ्कल्पाय मुहूर्ता वै साध्या विश्वा च धामिनी धर्मपत्न्यो तासां पुत्रान् निबोध च विश्वेदेवाश्च विश्वायाः साध्यासाध्या नजीजनद मरुत्वत्यां मरुत्वन्दो वसोस्तु वसवस्मृदाः स्मृताः भानोश्च भानव सर्वे मुहूर्ताया मुहूर्तकाः लम्बाया यामीजो नागवीधिकः पृथिव्यां विषमं सर्वमरुन्धत्यामजा यदा सङ्कल्पायास्तु संकल्पा, संकल्पा धर्मपुत्रा इमे स्मृताः तेषां पुत्रैश्च पुत्रीभिरखिलं वर्धितं जगदर् आपो द्रुवोधसोमश्च धन्यश्चैववानलोनिलः प्रत्यूषोधप्रभासश्च वसवोष्ठौ प्रकीर्तिताः अदितिश्च दिधिक्कद्रुररिष्ठा सुरसादनुः सुरभिर्विनदा चैव वशात्विरा मुनिः धर्माज्ञा तासां पुत्रान्निबोध वै विवस्वानधरा च भगस्त्वष्टा तथां शकः वरुणाद्याश्च ये सर्वे चादितेः सुधाः दिदेश्च सखला दैत्यापुत्रा तथैव च दन पुत्रा स्तराध्या दानवा स्मृताः तारोधविप्रचित्तिश्च शम्भरः कपिलस्तथा स्वर्भानुसङ्करश्चैव वृषपर्वा च वीर्यवान् प्राधान्येनासुरा श्रेष्ठा सुरसायासहस्रं च सर्पाणामभवत्तथा अरिष्टा जनयामास गन्धर्वाणां सहस्रकम् शेषाद्याश्च महानागाकद्रोपुत्रा प्रजापदे ताम्राजनयामास कन्या षट्कं सुलोचनम् शुकीष्यनीजभासी च सुग्रीवा ग्रन्थिका शुचिः तासां पुत्रादिभिः सर्वं पक्षिवृन्दं बभूवः सुरभिर्जनयामास माही प्रजापदे इरा वृक्षलदावल्यी तृणजाधीश्च मुने पुत्रास्तदा प्रोक्ता यक्षा पुण्यजनास्तथा रक्षोगणं क्रोधवशा जनयामा सदाणम् विनतायाश्च पुत्र उद्वा वरुणो गरुडोपरः कशा ह्याः केचरा पुत्रा प्रेदाद्याश्च प्रजापदे यदे कस्यपदा यादाजङ्गमस्तावरात्मकाः वैवस्वतेन्दरे ह्यस्मिन् प्रख्याता कथिता मया अरिष्टनेमिपुत्राश्च वेधसो रूपधारकाः बहुपुत्रस्य पत्न्योस्तु चदस्रो विद्युदस्मृताः तथा चाङ्गिरसः पत्न्यो ऋषयो वृषसत्कृताः कृशाश्वस्य च देवर्षि देवप्रहरणसुदः ये दे युगसहस्रान्ते जायन्ते पुनरेव च मन्वन्तरेषु सर्वेषु तुल्यकार्याय स्वनामभिः पुत्रान् ब्रह्मर्षिरुत्पाद्य कश्यपस्तोषवर्जितः ततापतप उग्रं वै पुत्रार्थे परमार्थविद प्रादुर्भूदौ महौजसौ वत्सरच्चासिदो नाम्ना तावुभौ ब्रह्मवादिनौ वत्सरान्याै ध्रुवो जज्ञै राविभ्यश्च सुमहायशाः रविभ्याश्च ज्ञद्रा पुत्राद्युतिमदां वराः चवनस्य सुधाभार्या नैध्रुवस्य महात्मनः सुमेधा जनयामासपुत्रान् वै कुण्ठपायिनः असिता चैकपर्णायां ब्रह्मिष्टः समपद्यत नाम्ना वै देवलःपुत्रो योगाचार्यश्च सस्मृतः शाण्डिल्यपरमो योगी सर्वतत्त्वार्थविच्छुजिः इत्याद्या बहवः पुत्रा कश्यपस्य मयोदिदा येते ते च स्मरणाज्जन्धोः कामपूरा भवन्ति च पठनान्नात्र सन्देहो मूलरूपाः प्रकीर्तिताः ॐ तत्सदि श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्विदिये खण्डे एकदन्तचरिते कश्यप सृष्टिवर्णनं नाम अष्टाविंशतितमोऽध्यायः ओ